मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेन्टिफैव् माघमास माहात्म्ये विरोचनवधम् श्रीगणेशाय नमः शौनक उवाच माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् न तृप्यामि कथां शृण्वन् गणेशीं सर्वसिद्धिदा सुद उवाच प्रह्लादस्य महातेजाः पुत्रो भू दैत्यपालकका विरोचनसमाख्या दत्तेजस्विनाम् शिरोमणिः स शुक्रमुपसङ्गम्यप्रणम्य मुनिसत्तमम् जगाद जगादुःखसंयुक्तो निःश्व सुरनायकः विरोचन उवाच दैत्यादेवार्दितास्वामिं तिष्ठन्ति भयशङ्कुलाः पातालेषु ततो मह्यं साधितेषाम् हिताय भोः शुक्र उवाच आकृष्णेनेति मन्त्रेण सूर्यमाराधय तेनत्वं तेन दानवानां तु पालकः प्रभविष्यसि तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् कामं वनं समाश्रित्य तताप परमं तपः ध्यात्वा रविं विशेषेणार्ख्यदानं तु चकारक भूत्वा सूर्यमाराधयत् सदा दिव्यवर्षसहस्रेण प्रसन्नः सविधायौ वरं दातुं महातेजा विरोचनाश्रमं मुने तमागतं समालोक्य ननामः विरोचनः पूज्यतुष्टावदेवेशमथर्वशिरसा प्रभुम् तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः वरं ब्रूहि महादैत्य मनसिप्सिदमुत्तमं विरोचन उवाच सर्वेभ्यो मरणं नाथ न भवेत् दिवाकर चराचरमयेभ्यश्च राज्यं देहि त्रिलोकजं विस्मितः सविदा तस्मै ददौ स्वमुकुटं परम् जगाद भावगम्भीरो वचनं जगदीश्वरः भानुरुवाच मस्तके धारयस्वैनं तेन मृत्युविवर्जितः भविष्यसि यदान्यस्य हस्तशिरशिनोपदेत परहस्तस्पृश्ये दैत्यमस्तके चेन्मरिष्यसि यदा मुकुटहीने सावधानस्तदो भव राज्यं त्रैलोक्यसम्भूतं दत्तं तुभ्यं मयाधुना यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति एव मुक्त्वार्दधेसौ भानुःसर्वार्थको विदः विरोचनप्रसन्नात्मा स्वगृहं प्रययौ तदः तदशुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि दैत्यसमावृतसोऽपि जिज्ञे भूमिं महाबलः ततः शेषं विनिर्जित्य ययौ स श्यमरावतीं देवेन्द्रं वशमानाय्य विकुण्ठमगमत्तदः विष्णोर्विरोचनस्यैव युद्धं बभूवदारुणम् जित्वा विष्णुमहादैत्यो हर्षितः सम्बभूवः विष्णुना संयुधा देवा पपलोर्वनमाश्रिताः दैत्याः स्वर्गभुज सर्वे कृतास्तेन महात्मना ततः स दैत्यपांष्टाप्य विकुण्डादिपदेषु च नगरं स्वीयं दैत्यवृन्दसमन्वितः ततः स दैत्यपैर्युक्तो भोगान्नाविधान् परान् बुभुजे पापसन्निष्ठस्त्रीमांसादिषु लो तदो बहौ काले दैत्ये शैः प्रेरिधः कलः कर्मवर्णाश्रमस्थं स खण्डयामास आसुरं कर्म सर्वत्र कारयामासमानवैः तदोहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः एवं बहौ गते काले देवाश्च पोषणान्विदाः मुनिभिः शवं सर्वे तुष्टुवुस्तद्वधायतम् सोपि निःश्वस्य देवेशो विचारमकरोत् हृदि नवाप दैत्यनाशार्थं स्वयं खिन्नो बभूवः ततो विघ्नेश्वरं विष्णुः सस्मारदुःखमुक्तये गणेशकृपया तत्रा जगाम देवलो मुनिः तं प्रणम्यामरा सर्वे पप्रच्छुकार्यसिद्धये विरोचनवधा धार्यतनुवाच स हर्षितः समीपे ह्यधुना प्राप्तो मासो माखः सुपुण्यदः तत्र स्नानसमयुक्तास्येवध्वं गणनायक मुक्त्वा महायोगी देवोकतरम विधि मव गणेश्चगात्मक उपदिश्य व्रत योगी येच्छापरायण देवल केशवाद्याणेश भजनेरथ माखमासव्रतं चक्रुर्गणेशं सर्वसिद्धितं यथा शास्त्रं विधानेन विघ्नेशमभजत् परं सम्पूर्णे तद्व्रदे तत्र कवाणीतानुवाचः विष्णोस्त्री वेषगो भूत्वा जहिर्दैत्यं महाबलं गणेशं मनसि स्मृत्वा गच्छतं दैत्यनायकम् तवाधीनो महादैत्यो भविष्यदिविरोचनः श्रुत्वा दिकर्षिता देवास्तुष्टुवुर्गणनाय तं ततो विष्णुं महाभागाः प्रेरयामासुरादराध गच्छ गच्छ महाविष्णो जहि दैत्यं महाबलं चराचरं सदा कर्षयोक्तं तथेति तनुवाचाथ विष्णुध्यात्वा गजाननं स्त्रीरूपप्रययौ तत्र यत्र दैत्याधिपो भवद पुष्पवृक्षयुधायां स वाडिकायां स्थितो भवद तत्र नारायणं दैत्या ददृशु स्त्रीस्वरूपिणम् मोहितास्तां समागम्य पप्रत्योविनयान्विदाः काशी कास्यारम्भोरु किमर्थं त्वागदावद आज्ञां कुरु महाभागे वयं दासा न तवपादस्य तव वामाक्षि पश्य सर्वान् शुचिस्मि ते एवं तेषां वचश्रुत्वा तान् जगाद सुरूपिणी हावभावसमयुक्ता मोहिनी मोहकारिणी मोहिन्युवाच अहं स्वेच्छामयी रम्या नावृता स्वेच्छया गदा मोहिनी सर्वविख्यादा चरामिख्या कुदोभया। विश्वस्य नायकः कोऽपि भविष्यति महाबलः वरिष्यामि पदीं दैत्या नान्यं गच्छदमाचिरं तस्यास्तद्वचनं श्रुत्वा क्षुभिदा तेषु के ययुस्तत्र विरोचनं सदान्विदं तं प्रणम्य महात्मानं जगुर्वृत्तान्तमादराद श्रुत्वा सोऽपि महामोहयुक्तो बभूव तत्क्षणाद गणेशमायया भ्रान्तः प्रययौ तामनिन्दितां विरोचनो महादैत्यसंवृतस्थाम् ददर्शः समागतं महादैत्यं दृष्ट्वा विष्णुप्रहर्षितः सस्मारगणपं चित्ते ध्यात्वा तत्रैव तदो ततो गणेश्वरसाक्षात् तयोर्हृदि व्यवस्थितः बुद्धिभेदं चकारासौ तादृशौ तव बभूवधुः अधो विरोचनो देवीं दृष्ट्वा मोहयुधो भवद समीपे प्रययौ तस्य एकाकी हर्षसंयुधः तामुवाचमहादैत्यो विनयेन समन्वितः कृत्वा करपुडं विप्र महामायाप्रमोहितः विरोचन उवाच सचराचराः, मया ब्रह्माण्डनादेन तव दासेन तवाज्ञावश गोहं तु भविष्यामि निरन्तरं पत्नी भवमदीया त्वं गृहमागच्छ मे प्रिये एवं तस्य वच श्रुत्वा सुमोहिनी यदा वचोऽन्यथा मे त्वं करिष्यसि त्यजाम्यहं तथेदितां समागृह्य ययौ स्वगृहमुत्तमं तन्निष्ठस्ततः परसोऽपि बभूव समीपस्थितः नानाश्चादुर्यभावेन मोहयाम सतं हरिः मोहिनीरूप संस्थश्च कलं यभिदुमुद्यदम् तमुवाजमहाभागा मोहिनी सर्वमोहिनी अभ्यङ्गम् गुरुनाथत्वं मद्धस्तेन महामदे पश्चात्स्नानं च कृत्वा दुभोजनं कुरु सुव्रद ततो मां स्पृश दैत्येन्द्र तवाधीनां निरन्तरं गणेशमायया भ्रान्तस्तामुवाज तथेदि सः सुवासितेन तैलेनाभ्यङ्गं कर्तुं समुद्यतः प्रगृह्य मोहिनीतैलमुत्तार्य मुकुटं परं मस्तकास्तस्य हस्ताभ्यां मूर्ध्नि हृष्ठाव्यमर्दयद हस्तयो स्पर्शमात्रेण शतचूर्णो भवत्तदा मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिता भवद जय लम्बो दरेत्युक्त्वां तर्दधे साधु मोहिनी दैत्यामृदं समालोक्य विविशुस्ते रसातलम् देवर्षिभिस्ततो विष्णुस्वलोकम् स्वलोकमां गमच्च तैः लोकान् कारयामा समाधवः एवं महाखव्रदेनैव गणेशेन जनार्दनः जघानदयनाथं दैत्यनाधं त्रैलोक्य जयकारिणम् इदं यशृणुयात् जन्धुपडेद्वा गणपं स्मरन् स सर्वसुखसंयुक्तो भविष्यति निरन्तरम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते माघमासमहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः ओम्